हरि श्री श्रीसीता रामचन्द्रभ्य नमः अथ श्रीमद्वाल्मीकि रामायणे होजयाखण्डे षट् पञ्चाशर्गः वनस्य शोभां पश्यताम् मिथो दर्शयतां च श्रीरामप्रभृतीनां चित्रपूर्ते गमनम् वाल्मीकि दर्शनम् कृत्वा श्रीरामस्य आज्ञा लक्ष्मणे न वने पर्णशालाया निर्माणम् तस्याः वास्तुशान्तिम् कृत्वा तेषाम् सर्वेषाम् तत्र प्रवेशः अथरात्र्याम् व्यतीतायाम् अवसुप्तयमनन्तरम् प्रबोधयामासशनैः लक्ष्मणम् रघुपुङ्गवहे स्वमित्रे शृणुवन्यानाम् वल्गु व्याहरतांसनम् सम्प्रतिष्ठामहे काले प्रस्थानस्य परन्दप प्रसूक्तस्तु ततो भ्रात्रा तः जहो निद्रां च दन्द्राञ्च प्रसक्तञ्च परिश्रमम् तत उत्थायते सर्वे पृष्ट्वा नद्या शिवम् जलम् पन्थानम् ऋषिभिर्जुष्टम् चित्रकूटम् ययुः ततस्तम् प्रस्थितकाले रामसौमात्रिणा ीतां कमलपत्राक्षिम् इदं वचनमब्रवीत् आदिप्तान् सर्वेत देहि सर्वस पुष्पितान्न सै पुष्पै किञ्चुकान् पश्ये मालिन शिशिरात्यये पश्ये भल्लातकान् बिल्वान् नरय्य नोपसेवितान् फलपुष्पैवनतान् नूनं चक्षाम पश्य द्रोणप्रमाणानि लम्बमानानि लक्ष्मणे मधूनि मधुकरीभिः सम्भृतानि नगे नगे एष क्रोशति नत्युः तं शिखि प्रकृ प्रतिकोचति रमणीय वनो देशे पुष्पसंस्तर् सङ्कटे मातङ्गयूथानुसृतं पक्षिसङ्घनुनादितम् चित्रकूटम् इमं पश्य प्रवृद्ध शिखरं गिरिम् समभूमेतले रम्ये त्रमैर्बहुभिरवृते पुण्यैरं स्यामहे तत् चित्रकूटस्य कानने ततस्तौ पादचारेण गच्छन्तौ सह सीतया रम्यम् आसीद तु मनोरमम् सन्तु पर्वतमासाद्य नाना पक्षिगणायुतम् बहुमूलय फलं रम्यम् सम्पन्न सरसोदकम् मनोज्ञोयम् गिरिसौम्य नाना द्रुमलतायुतः बहुमूलय फलो रम्य स्वाजीवय प्रतिभाति मे मुनयश्च वसन्त्यस्मिन् शिलोच्चये अयं वासो भवेत् वयम् अत्र वसेमहि इति सीता चरामश्च लक्ष्मणश्च कुतञ्जलिः अभिगम्याश्रमम् सर्वे वाल्मीकिम् अभिवादयन् तान् भरषी प्रमुदितः पूजयामास धर्मभिः आस्य ताम् इति चोवाच स्वागतं तं निवेद्य च ततो ब्रवीन्द बहु लक्ष्मणम् लक्ष्मणाग्रजः सन्निवेद्य यथा नयम् आत्मानं दृशे प्रभु लक्ष्मण नयदारुणि दृढानि च वराणि च पुरुषं सोम्ये वासे मे भीरतं तस्य तद्वचनं श्रुत्वा स्वमित्रिर्विविधान् द्रमन् अजहार त्वक्रे पर्णशालाम् वृन्दमः तान् निष्ठिताम् बद्धकटाम् दृष्ट्वा रामस्तुदर्शन सुजूषमाणमेकाग्रम् इदम्ब च न अब्रवी एणीयम् मा समाहृत्य शालाम् यक्ष्यामहे वयम् कर्तव्यम् वा सुशमनम् सौमित्रे चिरजीविभिः मृगम् लक्ष्मणेन सुभेण कर्तव्य चात्र दृष्टो हि विविधर्मचनमाध्याय लक्ष्मण परवीरः चकार च यथोक्तम् हि सम्भ्राम पुनरब्रवी एनय्यम् कपयत्स्वैत शालां निष्ठ्यामहे वयं सरसौम्य मुहूर्तोऽयं ध्रुवश्च दिवसो स लक्ष्मण कृष्णमृगम् हसा मेध्यम् प्रतापवम् अथ चिक्षेप सौमित्री सुमिध्यै दातवेदसी तत्तु पक्वं समाज्ञाय निष्टप्तम् छिन्न शोणितम् लक्ष्मणे पुरुष व्याघ्रम् अथ राघवमब्रवीत् अयं सर्व समस्ताङ्गदम् कृष्णगोमय देवता देव संकाश राम स्ना स तु नियतो गुणवान् जपकोविदः सङ्ग्रहिणाकरोत् सर्वान् मन्त्रान् तत्रावसानकान् इष्ट्वा देवगुणान् सर्वान् विवेशावस संश्रुतिः बभूव च मनोल्लादो रामस्यामित तेजसः वैश्वदेव बलिं कृत्वा रौद्रम् वास्तु संशयमदीयानि मङ्गलानि प्रवर्तयन् जपं च नायत कृत्वा स्नाता नद्यां यथा विधि पापसंशमनं राम चकरे बलिमुत्तमम् वेदि स्थलविधानानि चैतान्यायतनानि च आश्रमस्यानुरूपाणि स्थापयामास राघव तामृश्यपर्णाशदनाम् मनोज्ञाम् यथा प्रदेशं सुकृतां निवाताम् वासाय सर्वे विशु समेता सभां यथा देवगणा सुधर्मां सुरम्यमासाद्य तु चित्रगोटम् नदीं च ताम् माल्यवतीं सुतीर्थान् ननन्दरुष्टो मृगपक्षिजुष्टाम् जहो च दुःखं परविप्रवास इत्याशी श्रीमद् रामायणे वाल्मीकि आदिकाव्यध्याकाण्डे षट् पञ्चाश सर्गीतारामचन्द्रार्पणमस्तु